तत्राथैकेन पादेन पातयित्वा तथा शिशुः न्युब्जः पयोधराकाङ्क्षी चकारचरुरोद च पातितम् दृष्ट्वा भिन्नभाण्डघटीघटम् जनास्ते शिशुनाथेन विस्मयम् परमं ययुः प्रत्यक्षम् शूरसेनानाम् दृश्यते महदद्भुतम् पूतना चापि निहता महाकायामहास्तनी पश्यताम् सर्वदेवानाम् वासुदेवेन भारत ततःकाले महाराज संसक्तौ रामकेशवौ विष्णुः सङ्कर्षणश्चोभौ रिङ्गिणौ समपद्यताम् अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे विसर्पयेताम् सर्वत्र सर्पभोगभुजौ तदा रेजतुः पांसु दिग्धाङ्गौ रामकृष्णौ तदा नृप क्वचिच्चजानुभिर्घृष्टौ क्रीडमानौ क्वचिद्वने पिबन्तौ दधिकुल्याश्च मथ्यमाने च भारत